श्रीहरये नमः अथ सप्तविंशोऽध्यायः नारद इत्तं पुरञ्जनं सत्यरवसुमानीयविभ्रमैः पुरञ्जनी महाराज रेमे रमयतिपतिं स राजा मघिषीं सुस्नातां रुचिरानना कृतस्वस्त्ययनां तृप्ता मभ्यनन्दत् उपागता तयोपगूढपरिरब्धकन्धरो रघो नो मन्त्रैः अपकृष्टचेतनः न कालरं को बुबुदे धुरत्ययं दिवानि सेति प्रमदा परिग्रहः स यानमतो महामना महार्हतल्पे महिषी भुब्जोपधीः तामेव वीरो मनुते परं यथ तमोभिभूतो न निजं परं च यत् तयैवं रममाणस्य कामकश्मलचेतसः क्षणार्धमिव राजेन्द्र व्यक्तिक्रान्तं नवं वयः तस्यामजनयत्पुत्रान् पुरञ्जन्यां पुरञ्जनः स थानेदश विराोर्धमतात्य दुहितृशोरस पितृमातृयसस्क शीलौधार्य गुणोपेता पौरंजन्य प्रजापते स पंचा लिपुत्र पितृवंश धारैः संयोजयामास दुहितृसदृसैर्वरैर् पुत्राणां चाभवन् पुत्र एकैकस्य सतं सतं यैवैपौरञ्जनोऽभंशः पञ्चालेषु समेदितः तेषु तद्रिक्थहारेषु गृहकोशानुजीविषु निरूढेन ममत्वेन विषयेषु अवन्वपद्यत ईजे चक्रधुभिर्घोरैर्दीक्षितः पशुमारकैः देवान् पितॄन्भूतपतेन् नानाकामो यथा भवान् युक्तेष्वेवं प्रमत्तस्य कुटुभासेतस आसादस वैका यो प्रिय प्रियोषिता चंडगति ज्ञात गंधर्वाधिपतिप गर्वास्त बलिष्ट्युत ग्यस्थासी मैथुन्य सि परिवृत्या विलुम्पन्ति सर्वकामविनिर्मितां ते चण्डवेगानुचरः पुरञ्जनपुरं यधा हर्तुमारेभिरे तत्र प्रत्यषे धत्प्रजागरः स सप्तभिः सतैरेका विंशत्या च शतं समाह पुरञ्जनपुरध्यक्षो गन्धर्वैर्युयुधे बली क्षीयमाणे स्वसम्बन्धे एकस्मिन् बहुभिर्युधा चिन्तां परां जघामार्थस्रारष्ट्रपुरबान्धवः स एव भूर्या मधुबो पञ्चालेषु स्वपार्षदैः उपनीतं बलिग्रह्नन् स्त्रीजितो नाविधयं कालस्य दुहिता काचित् त्रिलोकीं वरमिच्छति पर्यटन्ती न बर्हिष्मन् प्रयनं दत कश्चन दौर्भाग्येन आत्मनो यातुष्टारादर्शयेतु वृथा धात्पूरवे वरम् ब्रह्मलोकात्महिं गतं वव्रे बृहद्वरतं मां तु जानति काममोहिता मयि मदाच्छापं सुदुःसखं स्थादुमर्हसि नैकत्र मत्याविमुखो मुने ततोविकतसङ्कल्प कन्यकायवनीश्वरं मयो बधिष्ठमासाद्य वव्रे नाम्नाभयं पतिं वृषभं यवनानां त्वां वृणे विरेप्सितं सङ्कल्पस्त्वयि भूतानां पृथक् किल न रिष्यति द्वाविमावनुशोषन्ते बालावसद्धवग्रहो यल्लोकशास्त्रोपनतं न राति भद्र भजन्ति मे धयां कुरु एतावान् पौरुषो धर्म यथार्थाननुकम्पते कालकन्योधितमसो निसंयवनेश्वरः चिकीर्षोर्देव गुह्यं सस्मितं तामभाषत मया निरूपितस्तुभ्यम् पतिरात्मसमाधिना त्वामभत्रामसम्मतां त्वमव्यक्तगतिर्पुङ्क्ष्व लोकं कर्म विनिर्मितं या हि मे पृतना योक्ता प्रजानाशं प्रणेष्यसि प्रज्वारोऽयं मम भ्राता त्वं च भव चरां युभाभ्यां लोकेऽस्मिन् अव्यक्तो भीमसैनिकः इति श्रीमद्भागवते महापुराणे चतुर्थस्कन्ते पुरञ्जनो वाख्याने सप्तविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरु महाराज की ज